ैकाधिकशतमः सर्गः तन्तु गुरुवत्सलम् लक्ष्मणेन सह भ्रात्रा प्रष्टुम् समुपचक्रमे किमेतदिच्छेयमहम् श्रोतुम् प्रव्याहृतम् त्वया यस्मात्त्वमागतो देशमिमम् चीरजटाजिनी यन्निमित्तमिमम् देशम् कृष्णा हित्वा राज्यम् तत्सर्वं तत्सर्वम् वक्तुमर्हसि इत्युक्तः केकयी पुत्रः काकुत्स्थेन महात्मना प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् आर्यतातः परित्यज्य कृत्वा कर्मसु दुष्करम् गतः स्वर्गम् महाबाहुः स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप चकारसा महत्पापमिदमात्मयशोरहम् सा राज्यफलमप्राप्य विधवा शोककर्षिता पतिष्यति महाघोरे नरके जननी मम तस्य मेदासभूतस्य प्रसादम् कर्तुमर्हसि अभिषिञ्च स्वच्छाद्यैव राज्ये नमघवानिव इमाः प्रकृतयः सर्वा विधवा मातरश्च याः त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि तथा न पूर्व्या युक्तश्च युक्तम् चात्मनि मा न राज्यम् प्राप्नुहि धर्मेण स कामान् सुहृदः कुरु भवत्वविधवा भूमिः शशिना विमलेनेव शारदी यथा एभिश्च सचिवैः सार्धम् शिरसा याचितो मया भ्रातुः शिष्यस्य दासस्य प्रसादम् कर्तुमर्हसि तदिदम् शाश्वतम् पित्र्यम् सर्वम् सचिवमण्डलम् पूजितम् पुरुषव्याघ्रनातिक्रमितुमर्हसि एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः रामस्य शिरसा पादौ जग्राह भरतः पुनः तम् मत्तमिव मातङ्गम् पुनः पुनः भ्रातरं भरतम् रामः परिष्वज्येदमब्रवीत् कुलीनः सत्त्वसम्पन्नस्तेजस्वीचरितव्रतः राज्यहेतोः कथम् पापमाचरेन्मद्विधो जनः न दोषम् त्वयि पश्यामि सूक्ष्ममप्यरिसूदना न चापि जननीम् बाल्या त्वम् कामकारो महाप्राज्य सर्वदा नघा उपपन्नेषु दारेषु पुत्रेषु च विधीयते वयमस्य यथा लोके सङ्ख्याताः सौम्यसाधुभिः भार्या पुत्राश्च शिष्याश्च त्वमपि वने वाचीरवसलम् सौम्यकृष्णाजिनाम् बरम् राज्ये वापि महाराजो माम् वासयितुमीश्वरः यावत्पितरि धर्मज्ञगौरवम् लोकसत्कृते तावद्धर्मकृताम् श्रेष्ठजनन्यामपि गौरवम् एताभ्याम् धर्मशीलाभ्याम् वनम् गच्छेति राघव मातापितृभ्यामुक्तोऽहम् कथमन्यत् समाचरे त्वया राज्यमयोऽध्यायाम् प्राप्तव्यम् लोकसत्कृतम् वस्तव्यम् दण्डकारण्ये मया वल्कलवाससा एवमुक्त्वा महाराजो विभागम् लोकसन्निधौ व्यादिश्य च महाराजो दिवम् दशरथो गतः स च प्रमाणम् धर्मात्मा राजा लोकगुरुस्तव पित्रा दत्तम् यथा भागमुपभोक्तुम् त्वमर्हसि चतुर्दशसमाः सौम्यदण्डकारण्यमाश्रितः उपभोक्ष्ये त्वहम् दत्तम् भागम् पित्रा महात्मना यदब्रवीन्माम् नरलोकसत्कतः पिता महात्मा विबुधाधिपोपमः तरह मे पर नोकेमे श्रीमद्राणे वाक्य अयोध्यात सर्ग